सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः प्रज्ज्वालाथसोर्चिष्मान् स्वनादैः पूरयन् जगत् कृष्णाभ्याम् रक्षितम् दृष्ट्वा तञ्च दावमहङ्कृताः खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्रिनह गरुत्मान वज्रसदृशैः पक्षतुण्डनखैस्तथा प्रहर्तुकामो न्यपतदाकाशात् कृष्णपाण्डवौ तथैवोरगसङ्घाता पाण्डवस्य समीपतः उत्सृजन्तो विषं घोरं निपेतुर्ज्वलिताननाः तांश्च कर्तशरैः पार्थः सरोषाग्निसमुक्षितैः विविशुश्चापितं दीप्तं देहाभावाय पावकम् ततो सुरा सगंधर्वा यक्षसपन्नगेतुर्नादमुत्सृजनो रिन